गन्धर्वाश्च महात्मानः सङ्घर्षश्चाप्सरोगणाः वादित्रम् नृत्यगीतं च हास्यं लास्यं च सर्वशः पुण्याश्च गन्धाः शब्दाश्च तस्याम् पार्थसमन्ततः दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् उपासते महात्मानं। रूपयुक्ता मनस्विनः ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः वरुणस्यापि वक्ष्यामि सभाम् पुष्करमालिनीम् इति श्री महाभारत सभापर्वण लोकपाल सभाख्यापर्वण यमसर्णन सभा नाम अष्टमय